समक्षम् वासुदेवस्य देवस्य कर्माण्यसुकराण्यन्यैरा चक्षे जनाधिपशृण्वताम् पार्थिवानाम् च धर्मराजस्य चान्तिके इदम् मतिमताम् श्रेष्ठः कृष्णम् प्रतिविशाम्पते साम् नैवामन्त्र्य राजेन्द्र चेतिराजमरिन्दमम् भीमकर्मा ततो भीष्मो भूयः स इदमब्रवीत् उरूणाम् युधिष्ठिरमुवाचः भीष्म उवाच वर्तमानाम वर्तमानामतीताञ्च शृणुराजन् युधिष्ठिर ईश्वरस्योत्तमस्यैनाम् कर्मणाम् गहनाम् गतिम् अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः पुरा नारायणो देवः स्वयम्भूः प्रपितामहः सहस्रशीर्षः पुरुषो ध्रुवो व्यक्तः सनातनः सहस्राक्षः सहस्रास्य सहस्रचरणो सहस्रा विभुः सहस्रबाहुः साहस्रो दोना सहस्रवां सहस्र मुकुटो देवो विश्वरूपो महाद्युति अनेकवर्णो दवादिव्यक्ता पे स्थित असृजत्सल पूर्व सारायण प्रभु ततस्तु भगवांस्त ब्रह्माणमसृजत्स्वय ब्रह्म चुर्मुखो लोकांस्ताजत्स्वय आदि काले ह्यं सर्वोक चोद्भव पुराथ प्रलये प्राप्ते नष्टे स्थावर स्थावरजङ्गमे ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे आभूतसम्प्लवे प्राप्ते प्रलीने प्रकृतौ महान, एकस्तिष्ठति सर्वात्मा सतु तु प्रभु। नारायणः प्रभुः नारायणस्य चाङ्गानि सर्वदैवानि भारत शिरस्तस्य दिवम् राजन्नाभिःखम् चरणौ महि अश्विनौ घ्राणयोर्देवौ चक्षुषि शशिभास्करौ इन्द्रवैश्वानरौ देवौ मुखम् तस्य महात्मनः अन्यानि सर्वदैवानि तस्याङ्गानि महात्मनः सर्वं व्याप्य हरिस्तस्थौ सूत्रम् मणिगणानिव आभूतसम्प्लवान्तेऽथ दृष्ट्वा सर्वम् तमोन्वितम् नारायणो महायोगी सर्वज्ञः परमात्मवान् ब्रह्मभूतस्तदात्मानम् ब्रह्माणमसृजत् ब्रह्मा स्वयम् सोऽध्यक्षः सर्वभूतानाम् प्रभूतः प्रभवोच्युतः सनत्कुमारम् रुद्रम् च मनुम् चैव तपोधनान् ततो लोकान् प्रजास्तथा ते च तद्व्यसृजंस्तत्र प्राप्ते काले युधिष्ठिर तेभ्यो भवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम् बहुकोट्यश्च समातीता हि भारत आभूतसम्प्लवाश्चैव बहुकोट्योऽतिचक्रमुः मन्वन्तरयुगेजस्रम् सकल्पा भूतसम्प्लवा चक्रवत्परिवर्तन्ते सर्वं विष्णुमयं जगत। सृष्ट्वा चतुर्मुखम् देवम् देवो नारायणः प्रभुः स लोकानाम् हितार्थाय क्षीरो देव सति प्रभुः ब्रह्मा च लोकस्य च पितामहः ततो नारायणो देवः सर्वस्य प्रपितामहः अव्यक्तो व्यक्तलिङ्गस्थो य भगवान् प्रभुः नारायणो जगच्चक्रे प्रभवाप्ययसंहितः एष नारायणो भूत्वा हरिरासीद्युधिष्ठिर ब्रह्माणम् शशिसूर्यौ च चा धर्मम् चैवासृजत् स्वयम् बहुशः सर्वभूतात्मा प्रादुर्भवति कार्यतः प्रादुर्भावांस्तु वक्ष्यामि दिव्यान् देवगणैर्युतान् सुप्त्वा युगसहस्रम् स कार्यवान् पूर्णे देवदेवो जगत्पतिः ब्रह्माणम् कपिलं चैव परमेष्ठिनमेव च देवान्सप्तऋषींश्चैव शङ्करं च महायशाः सनत्कुमारम् भगवान्मनुं चैव प्रजापतिं पुराचक्रेऽथ देवादीन् प्रदीप्ताग्निसमप्रभः